नापतिनालावद् दशकम् नामकरणम् गूटम् वसुदेवगिराकर्तुम् ते निष्क्रियस्य संस्कारान् हृद्गतघोरतत्वो गर्गमुनेस्त्वद्गृहम् विभो गतवान् नन्दोदनन्दितात्मा बृन्दिष्टम् मानयन्नमुं मन्दस्मिदा प्रमोचे त्वत्संस्कारान् विदातुमुत्सुगती यदु वंशाचार्यत्वात् सुनिवृतम् इतवार्यकार्यमिति कथयन् गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानी कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो भ इति नूनम् गर्गमुनिश्चक्रे तव नाम रहसि विभो कृषीदादुणगाराभ्याम् सत्तानन्तात्मताम् किला विलभत् जगदगदर्शित्वम् वा कथयदृषे बेतान् व्याकुर्वन्नग्रजे च रामादि अदिमानुषानुभावम् न्यगदत् त्वामप्रकाशयन् पित्रे स्निह्यदि यस्तव पुत्रे मुह्यति स न मायितै ऋषिवर्य जेष्यति बहुतरदैत्यान् नेष्यति निजबन्तु लोकममलपदम् श्रोष्यति सुविमलकीर्तिरस्येते भवद्विभूतिम् ऋषिरूसे अमुनैव सर्वदुर्गम् दरिस्तास्त हरिरेवेत्यन बिलभन् यते त्वामवर्णयत्स मुनीम् गर्गेदनिर्गदेऽस्मिन्नन्दित नन्दादिनन्द्यमानस्त्वम् मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुरादीश हरे <laughs> कृष्ण हरे कृष्ण हरे कृष्ण हरे हरे हरे राम हरे राम